हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे द्वितीयस्कन्धे एकादशोऽध्यायः श्रोच गतप्राणं तु राजानं बालं पुत्रं समीक्ष चक्रोश्च मन्त्रिणः सर्वे परलोकससत्क्रियाः गङ्गातीरे दग्धदेहं भस्तप्रायं हे पतिम् न गुरुभिश्चाभियुक्तायां चितायां मध्यरोपयन् दुर्मरणे मृतस्याश्चैवोर्ध्वदेकम् क्रियां पुरोहिता तस्य वेदमन्त्रे विधानतः दुर्दानानि विप्रेभ्यो गास्तु वर्णं यथोचितम् अन्नं बहुविधं तत्र वस्त्राणि विविधानि च सुमुहूर्ते सुतम् बालं प्रजानां प्रीतिवर्धनम् सिंहासने शुभे तत्र मन्त्रिण सन्निवेशयन् स्वराजानपदा लोका चक्रुस्थं नृपतिं शिशुम् जन्मे नामानं राजलक्षणसंयुतं भात्रैः शिक्षयामास राजचिह्नानि सर्वशः दिने दिने वर्धमान स महामतिः प्ते च एकादशे वर्षे तस्मै कुलपुरोहितः यथोचितां दधो विद्यां जग्राह स यथोचितां धनुर्वेदं गृभय पूर्णम् दधो अस्मै सुसंस्कृतम् अर्जुनाय यथा द्रोणकरणाय भार्गवो यथा सम्प्राप्त विद्यो बलवान् बभूवय दुरतिक्रमः धनुर्वेदे तथा वेदे पारघ पेद धर्म शास्त्र कुशल दृत्यन्द्रिय राज्य धर्मत्मा पुरा धर्म यथा। सुत सुवर्ण वर्माख्यो राज काशीपति किल वपुष्टमा शुभा कन्याप्या जन मेज है काशी राज्य सुधाम राजा यहां वीर मोदे सुभद्रा चथाजुन विचहारे मही पारो वन उपवनु तथा कमल पत्राख्या श्यात सुसंतुष्टा बभूभू सुखलालिता मंत्रिण कर्मकुशला चक्रु कार्या एतस्मिन्नेव काले तु मुनि उत्तनामकः तक्षकेण परिक्लिष्टो हस्ति नापुरमध्यगात् वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन् परीक्षिता सुतम् मत्वा तं नृपं समुपागतः कार्याकार्यं न जानासि समये नृपसत्तमः अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम् अवैरज्ञमतन्त्रज्ञम् बालचेष्टासमन्वितं जनमेज उवाच किं वैरं न न किं प्रतीकृतं तद्वद तम् करोमि यदनन्तरम् उत्तङ्क पिता ते नेतो तक्षकेण दुरात्मना मन्त्रिण तम् समाहूय पृच्छ स्वपितृनाशनम् सूतवाच तच्छ्रुत्वा वच नम्राजा पप्तछ मन्त्रि दत्तवान् कुच्योस्ते द्विजशापेन दष्टसर्पेण वै मृतः जनमेज उवाच स पोत्रकाल नम्राज्ञ सप्तस्य मुनिना किल तक्षकस्य तु गो दोषो मे मुनि सप्तम उत्तङ्ग तक्षकेण धनम् दत्त्वा कश्यप सन्निवारितः नसकिम् स किं वैरि पितृहा तव भूपते भार्यारुरो पुरा भूप दष्टा सर्पेण सा मृता अविवाहिता तु मनीषा जीविता च पुनः प्रिया रुरुगुणापि कृता तत्र परिध्या चापि दारुणा यं यम् तं तम् वै एवं कृत्वा प्रतिज्ञास शस्त्रपाणीरुरु गचरत् पृथिवीं राजन् सर्पान्यतस्ततः एकदा स वने घोरम् डुण्डुभं जरसान्वितम् अपच्यद्दण्डमुद्यम्य हन्तुं तं समुपायौ अभ्यहन् नृजितो विप्र समूहा चास दुण्डुभ वाच प्रा दिता दष्टा सर्पेण स मृता प्रतिज्ञेयं तदा सर्वता डुण्डुभरुवाच नाहं दशामि चेन्नेवै ये दशन्ति भजङ्गमः शरीरसमयोगेन न मां हिन्दी स्मरसि उत्तवाच कृत्वा तां मनुषीं वाणीं सर्पेण मनोहराम् रुरु पप्रच्छ कोशे तं कुण्डुभतां गतः सर्पवाच ब्राह्मणोऽहं पुरा विप्र सखामेकमार्ध विप्रोधर्मन्द्रिय स मया वञ्चितो मोर्ख्यात् सर्पं कृत्वा चार्णकं भयं च प्रापितोत्यर्थम् अग्निहोत्राय गृहे स्थितः तेन भीतेन शब्दोऽहं विह्वले भव सर्पो मन्दबुद्धे येनाहं दर्शिता स्वया मया प्रसादितो सर्पे नासु अद्योत्तमः माम् उवाचा तत्क्रोधात् किञ्चित् शान्तिम् अवाप्यते रुस्ते मोचिता चाप चाप्यस्य सर्प भविष्यति प्रमते मां तु ब्रवीद्वचः सोऽहं सर्पो रुरुस्तं रुरु शृणु मे परमं वच अहिंसा परमो धर्मो विप्राणाम्नात्र समुचयः दया सर्वत्र कर्तव्या ब्राह्मणे विजानता यज्ञातन्यत्र विप्रेन्द्र न हिंसा याज्ञा उत्तङ्क सर्पयो निर्विनिर्मुक्तो ब्राह्मणोऽ सोरुरुसतः कुत्रा तस्य चापान्तं परित्यक्तं च हिंसनं विवाहिता तेन बाला मृता सञ्जीविता पुनः कदनम् सर्वसर्पाणां कृतं वैरम् अनुस्मरन् सन्तु वैरं समुत्सृज्य वर्तते पन्नगेश्वथ विमन्युर्भरतश्वे पितृघात करेश वै अन्तरिक्षे मृतस्तात् स्नानदान विवर्जितः तस्योद्धारं च सा राजेन्द्र गुरुहत्वाथ पन्नगान् न जानाति जीवन्नेव मृतोहितः दुर्गतिस्ते पितुर्तावद्यावत् तान्न हनिषांशति अम्बाखमिषं कृत्वा कुरु यज्ञं नृपोत्तम सर्पसत्रम् महाराज पितुर्वैरम् अनुस्मरन् श्रुत उवाच इति तस्यैव च श्रुत्वा राजा जन्मेज सदा नेत्राभ्याम् अश्वपातम् च चकारतीव दुःखितः धिमामस्तु सुदुर्बुद्धिः तथा मान करस्वै पिता यस्य घोरम् प्राप्त पद्य पीडितः राजा वचनम् कुर्वन्तु यज्ञसम्भारम् यथार्हम् मन्त्रि सप्तमः गङ्गातीरे शुभाम् भूमिम् मापयित्वा दुर्योत्तमये कुर्वन्तु मण्डपम् स शतस्तम्भम् मनोहरम् वेदि यज्ञस्य कर्तव्य ममाध्य सचिवा तदङ्गत्वे विधेयो वै सर्पसत्र सुविस्तरः तक्षकस्तु पशुस्तत्र होतोत्तङ्गो मुहामुरे शीघ्र आहूयताेदपच मंत्रेण सूतरा चक्रुर्भुप वाक्यक्षण यसंभार वेदीं युता वर्तमे तो सर्पाण तक्षको ग्रं भया तो माब्रवीत भयभत चय शेश ततोभयम् मत्यथम् निर्भयो भवपन्नग पन्नग तमिन्द्र शरणम् ज्ञात्वा मुनिर्धत्ता भयम् तथा उत्सङ्को भयदुद्विघ्न सेन्द्र कृत्वा निमन्त्रणम् स्मृतः सदा तक्षकेण ययो अरकुलोद्भव आस्ति को नाम धर्मात्मा चरत्कारु सुतो मुनिः तत्रागत्य तुष्टा भजन प्रजातं यामास दृष्ट्वा बालं सुपण्डितम् अचित्वा नमासे ततो महाभाग यज्ञो यम् वि सत्यबद्धो नृपतेन प्रस्थितः च पुनस्तथा होमं निवर्तयामास सर्प नाम भारतं श्रावयामास वैशम्पायनविस्तरात् श्रुत्वापि नृपते कामं न शान्तिमभिजग्मिवान् स्वसम्प च भूपालो मम शान्तिः कथं भवेत् मनोति दह्यते कामं किं करोमि वदस्व मे पितामहे दुर्भगस्यैव मृतपार्थ सुतात्मजः क्षत्रियाणां महाभागसङ्ग्रामे मरणं वरम् रणे मरणं व्यास गृहे विधिपूर्वकम् मरणं न पितुर्मे भूदन्तरीक्षे मृतो शान्त्युपायं वदत्वात्र तं च सत्यवती सुत यथा स्वर्गं ब्रहेदाशु पिताम्भे दुर्गतिं गतः इति श्रीमद्देवी भागवते मा पुराणे अष्टादशसहस्रां संहितायां द्वितीयस्कन्धे सर्पसत्रवर्णनं धाम श्रीजगदम्बिकायार्पणमस्तु